नारायणीयं दशकं तर्टि मीटर् वसन्ततिलकम् शक्रेण संयदि हतोऽपि बलिर्महात्मा शुक्रेण जीवितनुक्रदुवर्धितोष्मा विक्रान्तिमान् भयनिलीनसुरान्त्रिलोकीं चक्रेवशेष तव चक्र मुखादभीतः पुत्रार्तिदर्शनवशाददितिर्विषन्ना तं काश्यपं निजपदिं शरणं प्रपन्ना त्वत्पूजनं तदुदितं हि पयोव्रताख्यं साद्वादशाहमचर त्वयि भक्तिपूर्णा तस्यावधौ त्वयि निलीनमदेरमुष्याश्यामचतुर्भुजवपुः स्वयमाविरासि नम्रां च तामिह भवत्तनयो भवेयं गोप्यमदीक्षणमिधि प्रलपन्नयासि त्वं काश्यपेतपसि सन्निधत्तदानीम् प्राप्तोसि गर्भमधितेः प्रणुतो विधात्रा प्रासूत च प्रकटवैष्णवदिव्यरूपं साद्वादशी श्रवणपुण्यदिने भवन्तं पुन्याश्रमं तमभिवर्षदि पुष्पवर्षायर्हर्षाकुले सुरकुले कृततूर्यघोषे बध्वाञ्जलिं जय जयेति नुदः पितृभ्यां त्वं तत्क्षणे पडुतमं वडुरूपमाधाः तावत् प्रजापतिमुखैरुपनीयमौञ्जी दण्डाजिनाक्षवलया दिभिरर्च्यमानः दे कार्यस्त्वं प्रास्थिता बलिगृहं प्रकृताश्वमेधं। गात्रेण भाविमहिमोचितगौरवम् प्रा्यावृण्वतेव धरणीं चलयन्नयासीः चक्रं परोष्म किरणार्थमिव दधानो दण्डं च दानवजनेष्विव सन्निधातुं तां नर्मदोत्तरतडे अयमेधशालामासे दुषित्वैरुच तव रुद्धनेत्रैः भास्वान् सनत्कुमारो योगीनु कोयमिदि शुक्रमुखै शशङ्गे आनीतमाशु भृगुभिर्मह साभिभूतैस्त्वां रम्यरूपमसुरः पुलकावृताङ्गः भक्त्या समेत्य सुकृती परिणिज्य पादौ तत्तोऽयमन्वधृत मूर्धनितीर्थतीर्थम् प्रह्लादवंशजतयाक्रदुभिर्द्विजेषु विश्वासतोऽनुतदिदं दितीजोऽपि लेभे यत्ते पदाम्बुगिरिशस्य शिरोभिलाल्यं स त्वं विभो गुरुपुरालयपालये धाः सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द